अमात्यानुपधाति तान् पितृपैतामहान् शुचीन् श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वम् नियोजयसि कर्मसु कच्चिन्नोऽग्रेण दण्डेन भृशमुद्विजसे प्रजाः राष्ट्रम् तवानुशासन्ती मन्त्रिणो भरतर्षभा कच्चित्त्वाम् नावजानन्ती याजकाः पतितम् यथा उग्रप्रतिग्रहीतारम् कामयानमिव स्त्रियः कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः कुलीनश्चानुरक्तश्च दक्षस्येनापतिस्तथा कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः धृष्टावदाता विक्रान्तास्त्वया च वेतनम् च यथोचितम् सम्प्राप्तकाले दातव्यम् ददासि न विकर्षसि कालातिक्रमणादेते भक्तवेतनयोर्भृताः भर्तुः कुप्यन्ति यद्भृत्याः सोऽनर्थः सु महान् स्मृतः कच्चित् सर्वेऽनुरक्तास्त्वाम् कुलपुत्राः प्रधानतः कच्चित् प्राणांस्तवार्थेषु सम् त्यजन्ति कच्चिन्को बहूनर्थन सर्वशांति यथा कामं, का शासनातिगह कपुरषकारेण पुष्क कर्म लभते मानमधिकं, भूयो वा भक्वेतनम कच्चिद्विद्याविनीतांश्च नरान् ज्ञानविशारदान् यथार्हम् गुणतश्चैव दानेनाभ्युपपद्यसे कच्चिद्दारान्मनुष्याणाम् तवार्थे मृत्युमीयुषाम् व्यसनम् चाभ्युपेतानाम् बिभर्षि भरतर्षभ कच्चिद्भयादुपगतम् क्षीणम् वारि पुमागतम् युद्धे वा विदितम् पार्थ पुत्रवत् परिरक्षसि कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते समश्चानभिषङ्क्यश्च यथा माता यथा पिता निशम्य भरतर्षभ अभियासि जवेनैव समीक्ष्य त्रिविधम् बलम् यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम वार्ष्णिमूलम् च विज्ञाया व्यवसायं पराजयं बलस्य च महाराजा दत्त्वा वेतनमग्रतः कच्चिच्च बलमुखेभ्यः परराष्ट्रे परन्तप उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः कच्चिदात्मानमेवाग्रे विजित्य पार्थ प्रमत्ता न जितेन्द्रियान् कच्चित्ते यास्यतः शत्रून् च भेदश्च दण्डश्च विधिवद्गुणाः कच्चिन्मूलम् दृढम् कृत्वा परा न्यासि विशम्पदे विक्रमसे जेतुम् जित्वा च परिरक्षसि कच्चिदष्टाङ्गसंयुक्ता चतुर्विध बला च मुः बलमुख्यैः प्रतिवर्धिनी कच्चिल्लवम् च च परराष्ट्रे परन्तपा अविहाय महाराजा निहंसि समरे कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव अर्थान् समधितिष्ठन्ति रक्षन्ति च परस्परम्